सुप्रिया चाति बाहुश्च विख्यातौ च हाहा हूहूः हू हू। तुम्बुरुश्चेति चत्वारः गन्धर्वसत्तमाः अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा अपत्यम् कपिलायास्तु पुराणे परिकीर्तितम् इति ते सर्वभूतानां सम्भवः कथितो मया यथावत्सम्परिख्यातो गन्धर्वाप्सरसां तथा भुजङ्गानां सुपर्णानाम् रुद्राणां मरुतां तथा गवाञ्च ब्राह्मणानाञ्च श्रीमतां पुण्यकर्मणाम् आयुष्यश्चैव पुण्यश्च धन्य श्रुति सुखावहः श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता इमम् तु वंशम् नियमेन यः पठेत् महात्मनाम् ब्राह्मणदेव सन्निधौ अपत्यलाभम् लभते स पुष्कलम् यशः प्रेत्य च शोभनाम् गतिम् इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि आदित्यादिवंशकथने पञ्चषष्टितमोऽध्यायः